गरुडपुराणम् आचारकाण्डम् अध्यायम् तटि सूत उवाच विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनम् शुभम् परिवारश्च सर्वेषाम् समो ज्ञेयो हि पण्डितैः ॐ श्रृदयाय नमः ॐ श्रीं शिरसे स्वाहा ॐ श्रू शिखायै वषट श्रै कवचाय हुम् ॐ श्रौं नेत्रत्रयाय वौषड श्रः अस्त्राय इति दर्शयेदात्मनो मुद्राम् ध्यात्वात्मानम् श्रीधराख्यं शङ्खचक्रगदाधरम् तदस्सम्पूजये देवम् मण्डले स्वस्ति कादिके आसनम् पूजये दादौ देवदेवस्य शार्ङ्गिणः येभिर्मन्त्रैर्महादेव तान्मत्रान् श्रृणु शङ्कर ॐ श्रीधरासनदेवताः आगच्छता समस्तपरिवारायच्छुदासनाय नमः ॐ धात्रे नमः ॐ विधात्रे नमः ॐ गङ्गाय नमः ॐ यमुनाय नमः ॐ आधारचक्रयै नमः ॐ कूर्माय नमः ॐ अनन्ताय नमः ॐ पृथिव्यै नमः ॐ धर्माय नमः ॐ ज्ञानाय नमः ॐ वैराग्याय नमः ऐश्वर्याय नमः ओम् अधर्माय नमः ओम् अज्ञानाय नमः ॐ अवैराग्याय नमः ओम् अनैश्वर्याय नमः ॐ कन्दाय नमः ॐ नालाय नमः ॐ पद्माय नमः ॐ विमलाय नमः म् उत्कर्षिण्यै नमः ॐ ज्ञानायै नमः ॐ प्रियायै नमः ॐ योगायै नमः ॐ प्राह्यै नमः ॐ सत्यायै नमः ॐ ईशानायै नमः ॐ अनुग्रहायै नमः अर्चयित्वा समं रुद्र संजयेद, मन्त्रैरेभिर्मः प्राज्ञ सर्वपापप्रणाशनैः ॐ प्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ ॐ श्रियै नमः ॐ श्रं हृदयाय नमः ॐ श्रीं शिरसे नमः ॐ श्रीं शिखायै नमः श्रै कवचाय नमः ॐ श्रौं नेत्रत्रयाय नमः ॐ श्रः अस्त्राय पठ अस्त्राय नमः ॐ शङ्काय नमः ॐ पद्माय नमः ॐ चक्राय नमः ॐ गदाय नमः ॐ श्रीवत्साय नमः ॐ कौस्तुभ्यै नमः ओम् वनमालायै नमः ओम् पीताम्बराय नमः ओम् ब्रह्मणे नमः ओम् नारदाय नमः ओम् गुरुभ्यो नमः ओम् इन्द्राय नमः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 अभिषेकम् तदा तदो ततो यज्ञोपवीतकम् गन्धम् पुष्पम् तथा धूपम् दीपमन्नम् प्रदक्षिणम् दद्या देभिर्महामन्त्रै समप्यास जपेन्मनुम् शतमष्टोत्तरम् चापि जप्त्वा ह्यथ समर्पयेत् ततो मुहूर्तमेकन्दुध्यायेद्देवम् हृदि स्थितम् शुद्धस्फडिकसङ्काशं सूर्यकोटिसमप्रभं प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम् किरीडिनमुदाराङ्गं वनमादासमन्वितं परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः अनेन चैवस्तोत्रेण स्तुविदपरमेश्वरं श्रीनिवासाय देवाय नमः श्रीपदये नमः श्रीधराय सर्गाय श्रीप्रदाय नमो नमः श्रीवल्लभाय शान्ताय श्रीमतेज नमो नमः श्रीपर्वतनिवासाय नमः श्रेयसराय च श्रेयसाम्पदय चैव स्याश्रमाय नमो नमः नमः श्रेयस्वरूपाय श्रीकराय नमो नमः शरण्याय वरण्याय नमो भूयो नमो नमः स्तोत्रम् कृत्वा नमस्कृत्य देवदेवं विसर्जयेत् दे। इति रुद्रम् समाख्यातं पूजां विष्णोर्महात्मनः ह्यः करोति महाभक् सयादिपरमम् पदम् पठतेऽध्यायम् विष्णु पूजा प्रकाशकम् स विधूयेदपानि यादि विष्णोः परम्पदम् इति श्रीगारुडे महापुराणे आचारकाण्डेशैधरार्चनविधिर्नाम त्रिंशोऽध्यायः